रात्या सेदेयामानयेव स प्रजापातिम् समैहेरयत् स प्रजापातिः सुवर्णमात्मन्नापश्यत्तत्प्रानयत् तदेकाम भवत्तल्लला मामभवत्तन्महला भवत्तज्ज्येष्ठमभवत्तद्ब्रह्म मा भवत्तेन प्राजायत सो वर्धत समहानभवत्समाहादेवो अभवत् स देवानामीषाम् पर्येत्स ईशा नोऽभवत् स एकौरात्या भवत्स धनुरा दत्तेन्द्रधनुः नीलमस्योदरम् लोहेदम् पृष्ठम् नील नैवाप्रेयम् भ्रातृव्यम् प्रोर्णादिलोहे तेन द्विषन्तम् विध्यते ब्रह्मपादिना वदन्ति सौदातिष्ठत्स प्राचेन्दिशा मनुव्याचलत् तम् बृहच्च रसन्तरम् चादित्याश्च विश्वे च देवानुव्याचलन् गृहदे च वैसरथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्यादिष्टते च देवम् वित्ताम् सम्राच्यामुपदति गृहतश्च वैसरसन्तरस्य चादित्यानाम् च विश्वेषाम् च देवानाम् द्रियम् धाम भवति तस्य प्राच्याम् दिशि श्रद्धा पुंसले मित्र मागतो विज्ञानम् वासोऽहरुष्णे सम्प्रात्रे केशा हरेतौ प्रवर्तौ कल्मलर्मणिः भूतम् च भविष्यच्च परिष्कन्दो मनाविपथम् मातरिष्वा च पवमानश्च विपथवाहो वातः सारशीरेष्मा श्चायुषश्च पुरःसरावेन कीर्तिर्गच्छत्यायुषो गच्छति एवम् वेद सौदातिष्ठत्सदक्षेणाम् दिशामनुव्याचलत् नञ्यज्ञायज्ञियम् जामदेव्यम् च यज्ञश्च रजामानश्च पथवश्चानुव्याचलन् यज्ञायज्ञयाय च वैशवामदेव्याया च यज्ञाया च पशुभ्यश्चावश्च त एवम् विद्वाम् सम्प्राप्त्यमुपपदति यज्ञायज्ञेयस्य च वै स वामदेव्यस्य च यज्ञस्य च मानस्य च पशोनाम् च प्रियम् धाम भवति तस्य लक्षेणायाम् दिशे पुंसले मन्त्रमानथो विज्ञानम् वासोऽहरुष्मे संस्त्रे केशा हरेतौ प्रवर्तौ कल्मलर्मणिः अमाभास्याचपोर्णमासे च मनिष्ठन्दो मनो विपाथम् मातरिष्वा च पमानश्च विपसवाहो वातः साराशे कीर्तिश्चायश्च पुरःसरा वैरम् कीर्तिर्गच्छत्यायिषो गच्छति एवम् वेद समुदातिष्ठत् सप्रते चेर्दिशमनम् व्याचलत् च वै राजम् वरोणश्च राजानम् व्याचलन् वै रूपाय च वै समये राजाय श्च देश एवम् विद्वाम् सम्प्रात्यमुपावदयति वैरूपस्य च वैषमये राजस्य चापाम् च अवरुणस्य च राज्ञप्रियम् धर्म भवति तस्य प्रतीच्याम् दिशिरापुंसले हसो माधो विज्ञानम् वासः कृष्णे संव्रात्रेकेशा हरेतौ प्रवर्तौ अहश्च रात्रे च अरिष्कन्दो मनो विपथम् मातरिष्वाहा च पमानश्च विपथवाहो वाचः साराचेरेष्मा प्रदोदः कीर्तिश्च अशश्च पुनः सरावेनम् कीर्तिर्गच्छत्याशो गच्छति एवम् म् शैतम् च नो धसम् च सप्तऋषयश्च सोमश्च राजानुव्यासम् शैतातिरथ वैशनोधसायध सप्तऋषभ्यश्च सोमाज राज्ञावृष्ठते एवम् शैतस्य च वयस नोधसस्य सप्तरक्षेनाम् च सोमस्य च राज्ञप्रियम् धाम भवति तस्योजीत्याम् दिशे विद्यत्वम् स्कलेस्तनयस्तर्मा कथविज्ञानम् वासोऽहरुष्टे सम् रात्रिदेशाहरेकौ प्रवर्तौ कल्मनिर्मणिः श्रुतन्तविश्रोतङ्कपरिष्कन्दो मनो विपथम् आदरिष्वा च पमानश्च विपशवाहो वादः सागाशीलेष्मा प्रतोदः कीर्तिश्च निशश्च पुरःसरा वेदम् कीर्तिर्गच्छत्यायुषो गच्छति च एवम् वेद स संवत्सरमूर्ध्वा तिष्ठत्वम् देवाब्रवन्दाख्य किम् नतिष्ठसे सोऽप्रवेदा तस्मै प्रात्यायासन्देम् समाफलम् तस्याग्रेष्मश्च वसन्तश्चब्दोपादावास्ताम् शरच्च वर्षाश्चद्दो रहत रसन्तरम् चा गोच्येयास्ताञ्लज्ञायज्ञम् च वामधेयम् च तिरश्च रचस्ताम् चन्द भोरिजोहम् च दर्यम् चाह वेद आस्तराणम् ब्रह्मापर्हाणम् सामासादवद्गीतो वश्रयः सामासन्ते आरोहत् तस्य देवजनाः सरिष्ठन्दासम् सङ्कल्पा प्राहार्य स्य भूतान्योपसदो भवन्ति एवम् वेद तस्मै प्राच्यादिशः वासन्तो मासो गोप्तामुकुर्वन् बृहच्च रसन्तरम् चानुष्ठातारोसन्तादेवम् मासो प्राच्यादिशो गोपायदो बृहच्च रसन्तरम् चानुष्ठताय तस्मै दक्षेणायादिशः रेष्मौ मासो गोत्ता रामगुरुर्वन्यज्ञायज्ञयम् ज वामदेव्यम् चरेष्मा वेदम् मासौ दक्षेणायादिशो गोपायगो यज्ञायज्ञम् च वामदेव्यम् चानोतिष्ठतो एवम् वेद तस्मै प्रदेत्यादिशः पार्षे गौमासो गोब्धारा कुर्वन् वैरोपञ्चामै राजम् चानुष्ठाकारो वार्षे कावैरम्मासौ प्रदेच्या दिशो गोपायतो वै रोपञ्चामै राजन्तालो तिष्ठतो य एवम् यदा तस्मामुदेत्यादिशः शारदौ मासौ शारदा वेणुम्मा सामुदे चादृशो गोपायतः शैतञ्च नौखसञ्चालो तिष्ठतो य एवम् न यदा तस्मेद्भुवायादिशः हरिमनो मासो गोस्ता धामगुर्वन् भूमिम् चाटिञ्चानुष्ठा हैमनावे नमासोद्ध्रुवायाधिशो गोपायतो भूमिश्चाग्निश्चानोऽतिष्ठतो य एवम् वेद तस्मावोर्ध्वायाधिशः शैशिरोमासो गोप्ता रामकरणन्दिवन् चादित्यञ्चानुष्ठातारो शैशिरावे नमासा वूर्ध्वायाधिशोगो तस्मै प्राच्यादिशोऽहम् तर्देशाद्भव विश्वासमानुष्ठातारामकुर्वन् भव येन विश्वासप्राच्यादिशोऽहम् तर्देशादनुष्ठातानोतिष्ठति नैनम् शैवो न भवो देशा नस्य एवम् वेद तस्मै दक्षिणा यादृशोऽन्तर्देशाक्षर्वमिश्वासमनुष्ठातालम कुर्वन् सर्वयेन विश्वासो दक्षिणायादिशोऽन्तर्देशादनुष्ठातानोतिष्ठनिलेयम् दे सर्वो न भवो नेषानः नास्य पशोन्मसमानान्यस्त्येवम् वेद तस्मै प्रतीच्या दिशान्तर्देशापाशुपते विश्वासानुष्ठातारमकुर्वन् पशुपतेनेन विश्वासप्रतीच्यादिशोन्धर्देशादानुष्ठातानुतिष्ठतिनेनम् शतको न भगो देशा नः नास्थ्यापशोऽन्नसमानाह्ने नष्टि एवम् वेद स्माबुदेत्यादिशान् दर्देशादग्रम् देवमिश्वासमानुष्ठातानामकुर्वन् उग्रयेनम् देवय श्वासबुधेत्यादिशान् दर्देशादानुष्ठातानोऽतिष्ठजनैनम् सर्वो न भवानेषानः नास्यापशोन्नसामानाह्ने नष्टिय एवम् वेद कस्मै ध्रुवायादिशोऽन्तर्देशाद्वृत्रमिश्वासमानुष्ठातारमकुर्वन् रुत्रये न विश्वासोद्ध्रुवायादिशोऽन्तर्देशादानुष्ठातारोतिष्ठदिनैनम् दे सर्वो न भवो निशानः नास्य पशोन्नसमानान्येन स्त्रिय एवम् वेद कस्मा भूर्धाया दिशोऽन्तर्देश श्वासमानुष्ठातारमकुर्वन् महादेवयेन विश्वासभूस्भायादिशोऽन्तर्देशादनुष्ठातानोतिष्ठतिनैनम् दे सर्वो न भवो नैशानः तस्मै सर्वेभ्योऽन्तर्देशेभ्यैषानविश्वासमानुष्ठातारम कुर्वन् ईशानयेन विश्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठादानो निष्ठनिम् शर्वो न भवो नैशानः नाश्च पशोन्नशमानान्ने नश्च एवम् वेद सद्भवान् निशमनम् व्याचलत् प्रणम्भो निश्चाग्न्यश्चौषाधयश्च वनस्पदायश्च वानस्पत्याश्च देवधश्चामम् व्याचलन् भूमेश्च वैसो ओग्मेश्चौषाधेनाम् च वनस्पतेनाम् च वनस्पत्यानाम् च विरुधाम् च प्रियम् धामा भवति य एवम् वेद स चन्द्रश्च नक्षत्राणि च न ऋतस्य च वयसत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणाम् च प्रियम् धाम भवति य एवम् वेद सोत्तम् दिश मनो व्याचलत् तमृजश्च सामानि च यजोऽंसि च ब्रह्मा चानो व्याचलन् वृजाम् च वयससाम्नाम् च अयजोषाम् च ब्रह्माणश्च धाम भवति वेदा समे हतेऽम् दिशा मनोव्याचलत् अमेतिहासश्च पुराणम् च अगाथाश्च नाराशंसेश्चाणव्याचलन् इतिहासस्य च वैषपोराणस्य च अगाथानाम् च नाराशंसेनाम् च प्रियन्ताम भवति य एवम् वेद माहवनीयश्चकारः पत्यश्च दक्षिणाग्निश्च यज्ञश्च विजमानश्च पदवश्चाण्याचलन् आहवनीयश्च च वैसकारः पत्यश्च दक्षिणाग्नेश्च यज्ञस्य च विजमानश्च च मशोनान्त प्रियन्धाः भवति मृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासार्धमासाश्चाहोरात्रे व्याचलम् ऋतोनाम् च वयसार्तवानाम् च लोकानाम् च लौक्यानाम् च मासानाम् चार्धमासानाम् चाहोरात्रयोश्च प्रियन्धामा भवति एवम् वेदा ृत्ताम् दिशामलो व्याजलत्त को नावत्सन्ना मन्यत पण्डतश्चादेतिश्चेडा चेन्द्रानीजा नो व्याचलन् दितेश्च वैशोदेतेश्चेडायाश्चेन्द्रान्याश्च प्रियम् धाम भवति य एवम् वेद स तम् विरा नव्याचलत् सर्वे च देवाः सर्वाश्च देवताः विराजश्च मैष सर्वेषाम् च देवानाम् सर्वासाम् च देवतानाम् प्रियम् धाना भवति य एवम् वेद स सर्वानन्दर्देशान् नौव्याचलत् त्वम् प्रजापातिश्च परमेश्चे च प्रजापादश्च वैधपारमेष्ठिनश्च पितुश्च पितामहश्च प्रियम् धाम भवति य एवम् वेद समाहिमादद्र भो त्वान्तम् पृथिव्यागच्छच्छता मुद्रा भवति त्वम् प्रजापातिश्च परमेष्ठे च पिता च पितामहश्चापश्चा च परषम् भोत्वा न व्यावर्तयन्त ऐनमापगच्छत्येनम् श्रद्धा गच्छत्येनम् वर्षम् गच्छति एवम् वेद तम् श्रद्धा च यज्ञश्च लोकश्चान्नम् स्थान्नाद्यम् स भूत्वाभि पर्यावर्तन्त अैनम् श्रद्धा गच्छत्येन यज्ञागच्छत्येन गच्छति एवम् वेद सोलज्जतरो राजन्याजायत स विशः समम् धोनन्नमन्नाद्यमभ्युदतिष्ठत् विशान्यवयसवम् धो नाम् चान्नस्य चान्नाद्यस्य च प्रियम् धाम भवति य एवम् वेद स विशोऽनु व्याचलत् पम् तथा समेतिश्च सेना च सुराजानु व्याचलन् सभायाश्च हेनायाश्च शिवायाश्च प्रियम् धामा भवति य एवम् वेद तद्यस्यैवम् विद्वान्वाज्यो राज्ञो देच्छर्गा नागच्छेत् श्रेयाम् दे। समेन मात्मनोऽ मानयेत् तथा क्षत्राय नावृच्यते तथा राष्ट्राय अतो वै ब्रह्म च क्षत्रम् चोदतिष्ठथान्ते अप्रोकान्तम् प्रगेशा वेति अतो वै बृहस्पदेमेव ब्रह्म प्रावेशत्विन्द्रम् क्षत्रम् तथा वा अतो वै बृहस्पदेमेव ब्रह्म प्रावेशदिन्द्रम् क्षत्रम् इयम् वावो पृथिवे बृहस्पतिर्जो रेवेन्द्राः अयम् वावो अद्य ब्रह्म सावादित्यक्षत्रम् एनम् ब्रह्मा गच्छति ब्रह्म वर्चसे भावति गृहप्रसगेम् बृहस्पतेमग्निम् ब्रह्म वेद ऐनामिन्द्रियम् गच्छतेन्द्रियवान्भवति चादित्यम् सहस्रम् दिवामिन्द्रम् वेद पद्यस्येवम् विद्वान् वाच्योते सुग्रहाणागच्छेत् स्वयमे नमभ्यदेत्यप्रोयात्रात्यक्पावाच्छाज्ञोदकम् राज्ञौरात्य यथा ते धथा यथा एव शस्तथा स्तोव्रात्य यथा देनिकामस्तथास्तुति यदे नमाहौरात्यक्पावाच्छेरिते पत एव देवया नानवारुन्धे यदे नमाहौराच्योदकमित्यपयेव तेनावरुन्धे ये नमाहौराद्य दर्पयन्ति च प्राणमेव तेन वर्षीयाम् सङ्कुरुते यदे नमाहौराद्यथा च प्रियम् तथा स्विजि प्रियमेव तेनावरुन्धे प्रैनम् प्रियम् गच्छति प्रियः प्रियस्य भवति वेद यदे नमाहौरात्ययथातेवशस्त्रसा स्तुतिवशामेव तेनावरुन्धे ऐनम् वशागच्छति वशि वशिनाम् भवति य एवम् वेद यदे नमाहव्रात्ययथा तेनिकामस्तथा स्तु ते निकामेव तेनावरुन्धे ऐनम् निकामो गच्छति निकामेन कामस्य निकाम भवति य एवम् वेद द्यस्येवम् विद्वान्व्रात्यमुद्धिः स्पृथिस्तुहोत्रे जयगृहाणागच्छेत् स्वयमेनमभ्युदेत्य प्रूयात्प्रात्यादेशहोष्यामीति स चातिसृजेज्योहयान्न चातिसृजन्नोहयात् स एवम् विदुषा व्रात्येनादेशो जुहोति प्रपि धृयानम् पन्थाञ्जानाति प्रदेवयानम् न देवे श्वामृष्ठते हुतमस्य भवति पर्यस्यास्तिल्लोक आयतस्य ते जय एवम् विदुषा प्रत्येनातिसृष्टो जुहोति अथ एवम् विदुषा प्रात्येनातिसृष्टो जुहोति रपिदुयानम् पन्थाम् जानाति न आ देवेशो वृक्ष्यते अहुतमस्य भवति का स्यास्मिल्लोक आयतानम् शिष्यते य एवम् विदुषा प्राच्येनातिदृष्टो जुहोति तद्यस्येवम् विद्वान् प्राच्य एकाम् रात्रिवदेशग्रे वसति एव पृथिव्याम् पुण्याः लोकास्थानेव तेनावरुन्धे येण्डरिक्षे पुण्याः लोकास्थाने तद्यस्येवम् विद्वान् रात्यस्तृतीयाम्रात्रिमदेशगृहे वसति ये दिवि पुण्या लोकास्थाने तेनावारुन्धे प्रद्यस्येवम् विद्वान् रात्यश्चतुर्थेऽम् रात्रिमते च गृहे ये पुण्याः नाम् पुण्याः लोकास्तानेव तेनावरुन्धे तद्यस्येवम् विद्वान् रात्योपारमिता रात्र्येव ते च गृहे वसति एवापारमिताः पुण्याः लोकास्तानेव अथ यस्याप्रात्याौ प्राद्यभ्रुवनाम बिभ्रत्यजे सङ्गृहानागच्छेत् कलुषेदेन कलुषेत् दे। अस्ये देवता या उदय्या च मीमाम् देवताम् वासयिमामिमाम् देवताम् फली वेवेष्मेद्यनम् परी वेदिष्यात् तस्यामेवास्य तद्देवतायाम् मृतम् भवति य वेद स यत्प्राचेन् दिशामनव्यजा नमारो तम् कृत्वा मम नासाम् नादे वेद स यद्गच्छेणाम् दिशामनव्यजान्द्रो भोत्वा नव्याचलब्बलामन्नादम् कृत्वा ना मर्त्यय एवम् वेद स्वयत्प्रदे चेन्द्रिशामनव्यजा हरोढो राजा भोत्वा नव्याजलतपोन्नादे कृत्वा अद्भिरन्नादिशिरन्नामर्त्ययैवम् वेद सयजु देये जेन्द्रिशामनव्यजात्सोमो राजा भोत्वा नौव्याजलत्सप्तऋषुभिहृदा आहत्यान्नाद्यान्नामद्यकृष्णर्भोत् दानम् व्याचलद्विराजमन्नादीम् कृत्वा विराजान्नाद्यान्नामद्य एवम् वेद स्व यत्पशोनम् विचालद्भोत्तानम् व्याचलकोशाधेननादे कृत्वा कोशाधेभिरन्नादेभिरन्नामद्य एवम् वेद श्र यत्पित्रौ गजालभ्यमो राजा भोत्वा नम् गाजलत् स्वधाकारमन्नादम् कृत्वा स्वधाकारेणाम् नादेनाम्ना मत्य एवम् वेद श्रयन्ना मश्या आननुगजागदज्ञ भोत्वा नौ स्वाहाकारेणाम् नान, नादेनान्नामर्त्य एवम् वेद स यदूर्धाम् दिशामनव्या न प्रहस्तषर्भोत्वा नौ व्याचलत्वशत्कारमन्नादम् कृत्वा वषत्कारेणाम् नान, नादेहान्नामर्त्य एवम् वेद स यद्देवानव्यजालतीशानो कृत्वा अन्यनान्नादेनान्न मध्य एवम् वेद स यत्प्रजालम् व्यजालत् प्रजातानिर्भोत्पालम् व्याजलप्राणमन्नादम् कृत्वा प्राणेनान्नादेनान्न मध्य एवम् वेद स यत्सर्वानन्तर्देशालम् गजालत् परमेष्ठे भोत्पालम् ब्रह्माणाम् नादीनाम्नाम्य एवम् वेद तस्यौवराद्यस्य सप्त प्राणाः सप्तापानाः सप्त व्याणाः कस्यौरात्यस्य योऽस्य प्रथमप्राणमोर्धो नामायम्सो अग्निः तस्यौराद्यस्य योऽस्य द्वितीयप्राणप्रौढो नामासंसादित्यः तस्यौरात्यस्य योऽश्च प्राणोभ्योढो नामासौ स चन्द्रमाः तस्यौरात्यस्य योऽ चतुर्थप्राणो विभो नामायम् समवामानः तस्यौवरात्यस्य योऽस्य पञ्चमप्राणो यो निर्नामाता इमा आपाः तस्यौवरात्यस्य योऽस्य प्राणप्रियो नाम त इमे पशवाः तस्यौराट्यस्य योऽप्राणोपरिमितो नाम ता इमा प्राजाः तस्यौरात्यस्य योऽ प्रथमोपानसापौर्णमासीत् तस्यौरात्यस्य योऽस्य द्वितीयोपानः साष्टगा तस्यौरात्यस्य यश्च तृतीयो बाणः सा मास्या तस्य उरात्यस्य योश्चतुर्थो बाणः सा श्रद्धा तस्य उरात्यस्य योश्च पञ्चमोऽपानसा दीक्षा तस्यौरात्यस्य योश्च षष्ठो बाणस्य यज्ञः तस्यौरात्यस्य योऽ सप्तमो बालस्था इमादक्षिणाः अस्य उवरात्यस्य योऽस्य प्रथमो ज्ञानस्येयम् भूमेः अस्य योऽ ज्ञानस्थ अन्तरिक्षम् तस्य उरात्यस्य योऽश्च तृतीयो ज्ञानसाध्योः योऽश्च चतुर्थो ज्ञानस्थानि नक्षत्राणि तस्यौरात्यस्य योश्च पञ्चमो ज्ञानस्त धः तस्यौरात्यस्य योश्च षष्ठो ज्ञानस्तार्तवाः तस्यौरात्यस्य योश्च सप्तमो ज्ञानस्य सम्वत्सरः तस्यौरात्यस्य समानमर्थम् परेयम् च देवाः सम्वत्सरम् वा एतदृतवानुपनेयम् दिव्रात्यम् च अस्यव्रात्यस्य यदा नित्यमाभिषम् च माभास्य तस्य व्रात्यस्य एकम् तस्य व्रात्यस्य यदस्य अधक्षेण मक्षसौ साधित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः योस्य अदक्षेण कर्णायम् सोऽग्निर् योश्च सव्यः कर्णायम् स पवमानः अहोरात्रे नासे केदिष्टादेश्चेरशपाले संरत्सदशिराः अन्धाः प्रत्यङ्ग्राच्यो वात्या प्राङ्गमोग्रात्या